षण्णवतितमोऽध्यायः वैशम्पाय न उवाच इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः सोष्वमेधसहस्रेण राजसूयशतेन च तोषयामासदेवेशं स्वर्गम् लेभे ततः प्रभुः ततः कदाचिद्ब्रह्माणमुपासाञ्चक्रिरेसुराः तत्र राजर्षयो ह्यासन् स च राजा महाभिषः अथ गङ्गासरिच्छ्रेष्ठा समुपायात्पितामहम् तस्यावासः समुद्धूतम् मारुतेन शशिप्रभम् ततो भवन् सुरगणाः सहसा वाङ्मुखास्तदा महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् सोपध्यातो भगवता ब्रह्मणा महाभिषः उक्त जा मतशु पुनर्लोकानवापस्यसी यृतमना चासी गंगयां दुर्मते साइमाशे लोके विप्रियाण्च्यति यदाते भविता मनुस्तद शाप्द विमोक्ष्यसे वैशंपाए नोवाच सचिंतवा नृपतिर्नृपान्यापोधना प्रतीपम् रोचयामास पितरम् भूरि तेजसम् महाभिषम् तु दृष्ट्वा नदीधैर्याच्युतम् नृपम् तमेव मनसा ध्यायन्त्युपावर्तत्सरिद्वरा सा तु विध्वस्तव पुषः कश्मलाभिह तान् दृष्ट्वा पप्रच्छसरिताम् वरा किमिदम् नष्टरूपास्थ कच्चित्क्षेमम् दिवौकसाम् तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदी अल्पेऽपराधे संरम्भात् वसिष्ठेन महात्मना विमूढा हि वयम् सर्वे प्रच्छन्नम् ऋषिसत्तमम् सन्ध्याम् वसिष्ठमासीनम् तमत्यभिस्रुताः पुरा तेन कोपाद् यो नौ सम्भवतेतिह न निवर्तयितुम् शक्यं यदुक्तम् ब्रह्मवादिना त्वमस्मान्मानुषी भूत्वा सृजपुत्रान् वसून्भुवि न ना मानुषीणाम् जठरम् प्रविशेम वयम् शुभे इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वा प्रवीदिदम् गङ्गोवाच मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति वसव ऊचुः प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः भविता मानुषे लोके सनःकर्ता भविष्यति गङ्गोवाच ममाप्येवम् मतम् देव यथा माम् वदता नघाः प्रियम् तस्य करिष्यामि युष्माकम् चैतदीप्सितम् वसव ऊचुः जातान्कुमारान्स्वानप्सु प्रक्षेप्तुम् वै त्वमर्हसि यथा न चरकालं नो निष्कृतिः स्यात् त्रिलोकगे गङ्गोवाच एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् नास्यमोघः सङ्गमः स्यात्पुत्रहेतोर्मया वसव ऊचुः तुरीयार्धम् प्रदास्यामो वीर्यस्यैकैकशो वयम् तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः तस्मादपुत्रः भविष्यति स वीर्यवान् एवं ते समयं कृत्वा गङ्गया वसवः सह जग्मुः संहृष्टमनसो यथा सङ्कल्पमञ्जसा इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि महाभिषोपाख्याने षण्णवतितमोऽध्यायः